हरि ओम् श्रीसीता रामचन्द्राभ्याम् नमः अथ श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे चतुस्सप्ततितमः सर्गः जाम्बवदादेशेन हनुमता हिमालयात् दिव्यौषधीनाम् पर्वतस्य आनयनम् तासाम् गन्धेन श्रीरामलक्ष्मणयोः समेषाम् वानराणाम् च स्वास्थ्यलाभः तयोक्त दासादि तयोर्णाग्रे ममोह सैन्यं हरियूथबाणम् सुग्रीव नीलाङ्गजाम् भवन्तो न चापि किञ्चित् प्रतिपे धीरे ततो विषण्णं तमवेक्ष्य सर्वं विभीषणो बुद्धिमतां वरिष्ठ उवाच शाखा मृगराज मृगराजवीरान् आश्वासयन् अप्रतिमैर्वचोभि मा भैश्च नास्त्यत्र विषादकालो यदार्यपुत्रौ ह्यवशौ विषण्णौ स्वयम्भुवो वाक्यमथोद्वहन्तो यथा जितौ इन्द्रजितास्तुजाले तस्मै तु दत्तम् परमाश्रमेतत् स्वयम्भुवा ब्राह्ममवघो ममोघवीर्यम् तन्मानयन्तौ युधिराजपुत्रौ निपातितो कोत्र विषादे काल ब्राह्ममास्त्रं ततो धीमान् मानयित्वा तु मारुतिः विभीषणवच श्रुत्वा हनुमान् निदमब्रवीत् अस्मिन्नस्रहसे सैन्ये वानराणां तरस्विनां यो यो धारसे प्राणान् तं तमाश्वासया तौ भो युगपद्वीरो हनुमन् द्राक्षसोत्तम उल्काहस्तो तदा रात्रो रणशीर्षे विचेरतुः भिन्नलाङ्गुलह स्तोरु पादाङ्गुलीशिरोधरे स्रवद्भिः क्षतजं गात्रे समन्ततः पतितये पर्वताकारे वानरे अभि शस्त्रै च पतिते दीप्ते ददृशातेव सुन्दराम् तुग्रीवम् मङ्गलम् नीलम् शरभम् गन्धमादनम् जाम्बवन्तम् सुषेणम् च वेगदर्शिनमेवच च मैन्दम् नलम् ज्योतिर्मुखम् द्विविधम् चापि वा नरम् ददृशा ते हतान्ने हता कोट्यो वानराणाम् तरस्विनाम् अन्धः पञ्चमशेषेण वल्लभेन स्वयम्भुवे सागरोघ निभम् भीमम् दृष्ट्वा बाणार्जितम् बलम् मार्गते जाम्बवन्तम् च हनुमान् स विभीषणः स्वभावे जरया युक्तम् रुद्धं च रसतेश्चितम् प्रजापति श्रुतं वीरं वीरम् शाम्यन्तमिव पावकम् दृष्ट्वा समभि सङ्क्रम्य पौलस्त्यो वाक्यमब्रवीत् कच्चिदार्य शरे तीक्ष्णे न प्राणाद्वसि तात्त विभीषण वचः श्रुत्वा क्षादभ्युद्गिरन् वाक्यम् इदं वचनमब्रवीत् नैरतेन्द्र महावीर्य स्वरेण त्वाभिलक्षये विद्ध गात्रे शितैर्बाणे न त्वां पश्यामि चक्षुषा अञ्जना सुप्रयायेन मातरिष्वा सुव्रत हनुमान् प्राणान् धारयते क्वचित् श्रुत्वा जाम्बवतो वाक्यम् उवाचेदम् विभीषणः आर्यपुत्रावतिक्रम्य कस्मात् पृच्छसि मारुतिम् नैव राजनि सुग्रीवे नाङ्गदे नापि राघवे आर्यसन्दर्शितस्नेहो यथा वायुः सुते परः विभीषण वच श्रुत्वा जाम्बवान् शार्दूल यस्मात् पृच्छामि मारुतिम् अस्मिन् जीवति वीरे तु हतमप्यहतम् बलम् हनुमत्युज्झित प्राणे जीवन्तोऽपि मृता वयम् धरते मारुति तात मारुतप्रतिमो यदि वैश्वानारसमो वीर्ये जीविताशा ततो भवेत् ततो वृद्धमुपागम्य विनयेनाभ्यवादयन् गृह्य जाम्बवतः पादो हनुमान्मारुतात्मजः श्रुत्वा हनूमतो वाक्यम् तदा व्यव्यथितेन्द्रियः पुनर्जातम् इवात्मानम् मन्यते स्मर्गवृक्षपुङ्गतो ब्रवीन्ह तेजाय हनुमन्तं स आगच्छ हरिशार्दूल वानरान्त्रातुमर्हसि नान्यो विक्रम पर्याप्त त्वमेषां परमस्तख त्वत्पराक्रमकालोऽयम् नान्यं पश्यामि कश्चन कञ्चन वृक्षवा नरवीराणाम् अनेकानि प्रहसय विशल्यो कुरु चाप्येतौ गत्वा परममध्वानं मध्वानम् उपर्युपरि सागरम् हिमवन्तम् नगर श्रेष्ठम् हनुमन् गन्तुमर्हसि ततः काञ्चन मत्युच्चम् वृषभम् पर्वतोत्तमम् कैलास शिखरम् चात्र द्रक्षश्चारीनिषूदन ततो शिखरयोर्मध्ये प्रदीप्तम् अतुलप्रभम् सर्वोषधीयुतं वीर द्रक्षस्योषधि पर्वतम् तस्य वानरशार्दूलय चतस्रो मूर्नि सम्भव द्रक्षस्योषधयो दीप्ता दीपयन्तीर्दिशोदश मृत सञ्जीविनीं चैव विशल्य कर्णीमपि चैव सन्धानीं च सर्वा हनुमान् गृह्य क्षिप्रम् आगन्तुमर्हसि आश्वासय हरिन् प्राणै योज्य गन्धर्व आत्मज श्रुत्वा वाक्यं वाक्यम् हनुमान् मारुतात्मजः आपूर्यत बलोद्धर्षये वायुवेगै वर्णव स पर्वतः तटाग्रस्थ पीडयन् पर्वतोत्तमम् हनुमान् दृश्यते वीरो द्वितीय इव पर्वतः हरिपादविनिर्भग्नो निशसादस पर्वतः न शशाकतदात्मानम् वोढुम् भ्रूष निपीडितः तस्य पेतुर्नगा भूमौ हरिवेगा च जज्विलुः शृङ्गाणि च विच्छेर्यन्त पीडितस्य हनुमता तस्मिन् सम्पीड्यमाने तु भग्नद्रुमशिलातले न शेकुर्वा न स्थातुम् गूर्णमाने न गोत्तमे सा घूर्णीतः पृथिवीं शोभयामास शार्णवाम् मारुतात्मजः अरुरोह तदा तस्मात् हरिर्मलयपर्वतम् मेरु मन्दर सङ्काशम् नानाप्रस्रवणाकुलम् नाना, नाना द्रुमलताकीर्णम् विकासी कमलोत्पलम् सेवितं देव गन्धर्वे विद्याधरे मुनिगणे अप्सरोभिर्निषेवितम् नानाम् ऋगगणाकीर्णम् बहुकन्दर्शोभितम् सर्वानाकुलयन्तत्र यक्षगन्धर्व किन्नराम् हनुमान् मेघसङ्काशो ववृधे मारुतात्मजहे पद्भ्यां तु विवृत्योग्रं न नादोच्चैः त्रसयन् रजनीचरान् तस्य नानद्यमानस्य श्रुत्वा निनादमोत्तमम् लङ्का रक्षसव्याघ्रा न शैकुस्पन्दितुं क्वचित् नमस्कृत्वा समुद्राय मारुतिर्भीमविक्रमः राघवार्थे परं कर्म समीहतः परन्तपः स पुच्छमुद्यं भुजङ्गकल्पम् विनम्य पृष्टं श्रवणे निकोच्य विवृत्य वक्त्रं बड्वा मुखाभम् आपप्लो वे व्योम्नि स प्राकृतवा नरा च क्षीणवेगासुलिले निपेतु स तु प्रसार्यो रगभोगकल्पौ भुजो भुजङ्गारि निकाष वीर्य जगामशैलं नगराजमग्र्यम् दिश प्रकर्षन्निववायुसूनौ ससागरं गूणद्वीचिमारम् तदम्भसा भ्रामित सर्वसम् समीक्षमाण स जगाम चक्रं यथा विष्णुकराग्रमुक्तं स पर्वतान् पक्षिगणान्तरांसि नदीतटाकानि पुरोत्तमानि स्फीताञ्जनान्तानपि सम्प्रवीक्षे जगामवेगृ पितृतुल्यवेग आदित्य पथमाश्रित्य जगाम स गतश्रम हनुमान्तरितो वीर पितुल्य पराक्रमः जवेन महता युक्तो मारुतिर्वातरंहस जगाम हरिशार्दूलो दिशब्देन नादयन् स्मरन् जाम्बवतो वाक्यं मारुतिर्भीमविक्रमः ददर्श सहसा चापि हिमवन्तं महाकपिः नानाप्रस्रवणोपेतं बहु कन्दर निर्धनम् श्वेताभ्य च संकाशे शिखरै चारु शोभितं विविधे वृक्षै अगमेत् पर्वतोत्तमः शतं समासाद्य अतिप्रवृद्धोत्तम हेम शृङ्गम् ददर्श पुन्यानि महाश्रमाणि सुरशि सङ्घोत्तम सेवितानि सब्रह्म सब कोशम् रजतालयम् चे शक्रालयम् रुद्रशर प्रमोक्षम् हयननम् ब्रह्म शिरश्च दीप्तम् ददर्श वैभे सुत किङ्कर चे वध्यालयम् वैश्रवणालयम् सूर्यप्रभम् सूर्यनिबन्धनम् च ब्रह्मालयम् चन्दरकामुखम् च ददर्शनाभिं च सुन्दराय कैलासमग्र्यम् हिमवच्छिलाञ्च तं वैवृशम् काञ्चनशैलमग्र्यम् प्रदीप्त सर्वोषधि सम्प्रदीप्तम् ददर्श सर्वोषधि पर्वतेन्द्रम् स तं समीक्षानराशि दीप्तम् विसिस्मि एवास्वदूतसूनो अप्लुत्य तं चौषधि पर्वतेन्द्रम् चौषधीनां विचरं चकार सयोजनसहस्राणि समेति च महाकपिः दिव्यौषधी धनं चैलम् व्यचरन् मारुतात्मजः मौषध्य सदसर्वा तस्मिन् पर्वतसप्तमे विज्ञायार्थिनमायान्तम् ततो जग्मूरदर्शनम् स्वतामहात्मा हनुमान् पश्यन् शुकोपरोषा च भृशम् ननाद अमृष्यमाणोऽग्निसमान चक्षु महिधरेन्द्रम् तमुवाच वाक्यम् किमतदेवम् सुविनिश्चितम् ते यद्राघवे नासीकृतानुकम्पे पश्चाद्य मद्बाहुबलाभिभूतो विकीर्णमात्मानमथो नगेन्द्र स तस्य शृङ्गं सनगं स सकांचनं धातुस कञ्चनं धातु स्रयुष्टम् विकीर्णकूटं ज्वलिताग्रसानुम् प्रगृह्य वेगा सोन्म वित्रास्य स तं स स्वीयमानखचरैरनेकै जगामवेगाद्गरुडोग्रवेगै स भास्कराध्वानमनुप्रपन्न तं भास्कराभं शिखरं प्रगृह्य भव तदा भास्कर सन्निकाशो रवे समीपे प्रतिभास्कराभै स शैलेन भृशम् रजे शैलोपमो गन्धवः आत्मजस्तु सहस्रधारेण स पावकेन चक्रेण खे विष्णुरिवार्पितेन तं वा विनेदू राष्ट्रैक्ष तदा विनेदु स्वता न पी प्रेक्ष्य मुदा ननादे निशम्ये लङ्कालया भीमतरम् विनेदु ततो महात्मा पपात तस्मिन् शैलुप्तमेवानसैन्यमध्ये हर्युत्तमेभ्य शिरसाभिवाद्य विभीषणम् तत्र च स स्वजेस तोऽप्युभौ मानुषराजपुत्रो तं गन्धमाघ्राय महौषधीनां वृत्तस्थुरन्ये च हरिप्रवीरा सर्वे विचल्या व्रियाक्षणेन हरिप्रवीरा च ता च ये स्यु गन्धेन तासाम् प्रवोषधीनाम् सुप्ता निशान्ते श्वसम् प्रबुद्धा यदा प्रभूति लङ्गायाम् युध्यन्ते हरिराक्षसाः तदा प्रभूति मानाथम् आज्ञया रावणश्च ये रणे तत्र रक्षसा कपि कुञ्जरे हताहतास्तु क्षिप्यन्ते सर्व एव सुसागरे ततो हरिर्गन्धवात्मजस्तु तमषधीशैलमुदग्रवेग निनादैव वेगाधिमवन्तमेव वे वे वे। पुनश्च रामेण समर जगाम इत्याख्ये श्रीमद् रामायणे वाल्मीकि युद्धकाण्डे चतुस्सप्ततितमः सर्गे श्रीतारामचन्द्रार्पणमस्तु